मार्कण्डेयपुराणम् अध्यायं नैण्टित्रि देवीमाहात्म्यम् अध्यायं तर्टीन् ऋषिरुवाच ये दत्ते कथितम्भोपदेवीमाहात्म्यमुत्तमं एवं प्रभावा प्रभावासा देवी ययेदं धार्यते दे जगद विद्या तथैव क्रियते भगवद्विष्णुमायया तथात्वमेष त्वमेष वैश्यश्च तथैवन्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे तामुपैहि महाराज शरणं परमेश्वरीम् आराधिता सैव नृणाम् भोगः स्वर्गापवर्गदा मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा सुरधः नराधिपः प्रणिपत्य महाभागं तमृषिं शंसिदव्रतं निर्विण्णोदिममत्वेन राज्ञापहरणेन च जगाम सद्यस्तपसे स च वैश्यो महामुने सन्दर्शनार्थमम्बाया नदी पुलिनसंस्थितः सच च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् तौ तस्मिन् पुलिने देव्या कृत्वा मूर्तिमहीमयीम् अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारौ यदात्मानौ तन्मनस्कौ समाहितौ ददतु स्तौ बलिं चैव निजगात्रा सृगुक्षितं एवं समाराधयदोऽस्त्रिभिर्वर्षैर्यदात्मनोः परितुष्टा जगद्धात्रीप्रत्यक्षं प्राहचण्डिका श्रीदेव्युवाच यत्प्रार्थ्यते त्वया भूवत्वया च कुलनन्दनमत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तद् मार्कण्डेय उवाच तदो वव्रे ततोवव्रे नृपो राज्यमविभ्रंशन्यजन्मनि अत्रैव च निचं राज्यं हदशत्रुबलं बलाद् सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ममेत्यहमिति प्राज्ञविच्युतिकारकम् श्रीदेव्युवाच स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यदे भवान् अत्वा रिपूनस्खलितं तव तत्र भविष्यति मृतश्च भूयः सम्प्राप्य जन्मदेवाद्विवस्वतः सावर्णिको नाममनोर्भवान् मनोर्भवान् भुवि वर्यत्वया वैश्यवर्य वरस्म तोछद तं प्रय् संसिध्यव ज्ञानम भविष्य मकंडेय उच यदि दत्वा तैर्दीषिदंबर सद्यो भक्र्या ुता वरम लब्वा सुरध क्षत्रियर्षभ सूर्याजन्म साम सनिर्भवता मनु यीमाकंडेय महापुराणे सवर्णिन्वंदी महात्म्ये वरप्रधानं नाम त्रिनवतितमोऽध्यायः ओ